अथ षट्चत्वारिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच विदुरस्य सुहृत्कश्चेत् खनकः कुशलो विविक्ते पाण्डवान् राजन् इदं वचनमब्रवीत् प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम् पाण्डवानां प्रियं कार्यम् इति किं करवाणि वः प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिति पाण्डवान् प्रतिपादय विश्वासादिति किं करवाणि कृष्णपक्षे चतुर्दश्याम् रात्रावस्यां पुरोचनः भवनस्य तव द्वारि प्रदास्यति हुताशनम् मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः इति तस्य धार्तराष्ट्रस्य दुर्मतेः किञ्चिच्च विदुरेणोक्तो म्लेच्छवा चासि पाण्डवा त्वया च तत्तथेत्युक्तम् एतद्विश्वासकारणम् उवाच तं सत्यधतिः कुन्तीपुत्रो युधिष्ठिरः अभिजानामि सौम्यत्वां सुहृदं विदुरस्य वै शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकं न विद्यते कवेः किञ्चित् अविज्ञातं प्रयोजनम् यथा तस्य तथा न निर्शेषा व्यय भवत पालयास्म इदम शरण मदि मे मतिरोन विर्तराष्ट्र से स पापः कोशवांश्चैव ससहायश्च दुर्मतिः अस्मानपि च पापात्मा नित्यकालम् प्रबाधते स भवान् मोक्षयत्वस्मान् यत्नेनास्माद्धुताशनात् सकामः स्यात् सुयोधनः समृद्धमायुधागारम् इदं तस्य दुरात्मनः वप्रान्तं निष्प्रतीकारम् आश्रित्येदं कृतमहत्